संहितापाठम् शतमिन्नु शरदो अन्तिदेवायत्रा नश्चक्राजरसं तनूनां पुत्रासो यत्र पितरो भवन्ति मानो मध्यारीरिषतायुर्गन्तो शतमिन्नु शरदो अन्तिदेवायत्रानश्चक्रायरसं तनूनाम् पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषतायुर्गन्तो शतमिन्नु शरदो अन्तिदेवायत्रा नश्चक्रायरसन्तनूनां पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषतायुर्गन्तो